अथ सप्त सप्ततम् स्मरातुराया यातो भूः आवासं त्वदुपगमोत्सवं सदैव ध्यायन्त्याः प्रतिदिनवास सज्जिकायाः उपगते त्वयि पूर्णमनोरथाम् प्रमद प्रपयोधरम् विविधमाननमादधतीम् मुदा रहसिताम् रमयाम् कृषे सुखम् पृष्टावरम् पुनरसाववृणोद्वराकी भूयस्त्वया सुरतमेव निशान्तरेषु सा युज्यमस्त्विति वदेद्बुध कामम् सामीप्यमस्त्वनिशमित्यपि नाब्रवीत् किम् ततो भवन् देवनिशासु काचिन्मृगीदृशम् ताम् विनो अदादु विनोदयन् अदादुपश्लोक इति श्रुतम् सुतम् स नारदात्सात्वत तन्त्रविद्बभौ अक्रूर अभ्यर्चितो बहु नुतो मुदितेन तेन एनम् विसृज्य पाण्डवेय वृत्तम् विवेदिथ तथा धृतराष्ट्रचेष्टाम् विघाता जामातुः परमसुहृदो भोजनृपतयेर्जरासन्धेरुन्धत्यनवधिरुषान्धेऽथ मथुराम् रथाद्यैर्दोर्लब्धैः कतिपयबलस्त्वम् बलयुतस्त्रयोविंशत्यक्षौहिणि तदुपनीतम् समहृथाः बद्धम् बलादथ बलेन बलोत्तरम् भूयो बलोद्यमरसेन मुमोचितैनम् निःशेष दिग्जय समाहृत विश्वसैन्यात् कोऽन्यस्ततो हि बलपौरुष वांस्तदानीम् भग्नः स लग्नहृदयोऽपि नृपैः प्रणुन्नो युद्धम् त्वया व्यधित षोडश कृत्व एवम् अक्षौहिणी अष्टादशेऽस्य समरे समुपेयुषि दृष्ट्वा पुरोथ यवनत्रिकोट्या त्वष्ट्राविधाप्य पुरमाशु पयोधि तत्राथ योगबलतः स्वजनाननैषीः पद्भ्याम् त्वम् पद्ममाली चकितैव पुरान्निर्गतो धावमानो मेछेना नानुयातो विन शैलेल सुनाघ्रियाहतेन द्रुतम थचुकुंदेन भस्मीतेूपायास्म गुहा वुषा तस्थिशे भक्तिभाजे ऐक्वाको विरक्तस्म्यखिल नृपसुखे ईकक्षी हा देती वर वितति सुतम् निःस्पृहम् वीक्ष्य हृष्यन् मुक्ते स्तुल्याम् च भक्तिम् धृत सकलमलाम् मोक्षमप्याशु दत्त्वा कार्यम् हिंसा विशुद्ध्यै तपैति तदा प्रार्थलोक प्रतीत्यै गत्वा हत्वा च मोम् यवनाहृताम् मगधपतिना मार्गे सैन्यैः पुरेव निवारितः चरम विजयम् दर्पाय अस्मै प्रदाय पलायितो जलधि नगरीम् यातो वातालयेश्वर पाहि माम् इति सप्त सप्त तम् दशकम्